गणेशपुराणं क्रीडाखण्डम् अध्यायम् फिफ्टि त्रि ब्रह्मोवाच पपुरिक्षुरसं पुण्यनिचयैर्लभ्यमञ्चसा तन्मध्ये पत्मिनीश्वेदा सहस्रदलपद्मयुग सहस्रकिरणप्रख्यं तस्यां यत्पद्ममुत्तमम् तन्मध्ये तस्य देवस्य पर्यङ्गोदिमनोहरः दिव्यास्तरणसम्पन्नो दिव्यधूपैः सुधूपिदः दिव्यनाकुसुमवान् स्वप्रभैरत्नसञ्जयैः भासयन् प्रभया सर्वा दिशो विदिश एव च व्यजनैर्विज्यमानः तत्र सेदे विनायकः कोडिचन्द्रनिभो नानालङ्कारो नागभूषणः रम्भास्तम्भनिभं शुण्डादण्डं रदनसुन्दरं दध दिव्याम्बरच्छन्नो बालनेत्र किरीटवान् कुण्डले कडिसूत्रं महाधनं सिद्धिबुद्धिसिद्धिहेदु पादौ सर्वः दोस्यः अणिमा गरिमाश्वे चामरैर्वीजितस्मः ज्वालिनि त्यजिनि दीप्यमाने चोभयदष्टिदे दिव्यगन्धेन लिप्ताङ्गो दिव्यमाला विभूषितः महिमा दायस्तिदे ते दृष्टिसमीपतः जवं गण्ढूषपात्रं च छत्रं काञ्चनरत्नयुग ततो दूदौ करे धृत्वात्तं नृपं पुरतोऽस्नतु ईक्षे दे तदो देवोन्व देवोऽन्वबुध्यद तौ दूवुच दुर्देवमानीतोऽयं तवाज्ञया प्रणम्य च स्थितौ दूरं तदाज्ञापेक्षका उभौ तस्मिन् प्रबुद्धे राजा स प्रणनाम उवाच परमप्रीत्या धन्यो वंशो ममाद्यः पिद जन्म विद्या चपो दृष्टिसुदाद ये दर्शिद ब्रह्मध्येय पदयुगम तव न ब्रह्म लोक कैलासे शक्रलोके वैभव यहता दृशो दर्शि मया नलोके कशन दुदूच आश्यता स ततस्तौ च निषे ददुः ततोपश्यद्बालरूपं द्विभुजं सविनायकं यनतौ निपतौ दैत्यौ देवान्तकमरान्तकौ अदिगौर्यं कोमलाङ्गे हिमकर्पूरसन्निभम् न शशाकतदावक्तुं बाष्परुद्धमहागलः आनन्दाश्रुनदीपूरैरासेञ्जस्तत्पदद्वयं विज्ञाय तन्महाभक्तिमुद्धाप्यालिङ्ग्य विघ्नराड मोद्धन्याघ्रातश्च देवोऽपि बाष्पण्ठो भूदुभौ रोमाञ्चसंयतौ उभौ सुखाब्दिसंमग्नौ देहातीतौ यथा उवाचवचनं पश्चात् विनायकः त्वद्गृहेणेकधातादक्रीडदा मया क्षान्तं हि त्वया सर्वं शुभं वा यदि वा शुभं निहदा बहवो दैत्या धरा भारश्च संहृदः पालिता साधुलोकाश्चापिदा धर्मसेधवः तवाज्ञया पुनर्याधकश्यपं सृष्टिकारकम् प्रणम्यतं निजं लोकं प्राप्तोमुम् सर्ववैभवं त्वामेव परिचिन्त्याहं विश्रान्तिं न तवादिभावं ज्ञात्वाहं मुद्गलं मुनिपुङ्गवम् अप्रेषयं तव तदनुग्रहतस्त्वया प्राप्तं स्थानं मुद्गलेन भक्ते नेदं त्वयापि च यदगम्यं सदा देवैर्ब्रह्माद्यैर्मुनिपुङ्गवैः क उवाच पीत्वा वागमृदं तस्य नृपो नत्वा पुनः पुनः उवाच धैर्यमालम्ब्य तुष्टावच यथा नृप उवाच नमामि नाथ पदारविन्दम् ब्रह्मादिभिर्ध्येयतमम् शिवाय यत्पद्मपाशासि परश्वधादिचिह्निदम् विघ्नहरम् निजानाम् यद्यार्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च अनेकशो विघ्न विनाशदक्षं संसार तप्तामृतवृष्टिकारि नमामि ते नादमुकारविन्दं त्रिलोचनं वक्निरवीन्दुतारं कृपा कडाक्षा मृतः सेचनेन तापत्रयोन्मूलनदृष्टशक्ति नमामि ते नाथ करारविन्दमनेकहे दीक्षदैत्यशङ्कम् अनेकभक्ताभयदम् सुरेश संसारकूपोत्तरणावलम्बम् त्वमेव सत्त्वात्मतया बिभर्षि सृजस्य जो राजसतामवाप्य तमो गुणाधारतया जहंसि चराचरं वशगं गणेश यः शुद्धचेदा भजते निशं त्वामाक्रम्य विघ्ना परिधा वसित्वं स त्वां वशीकृत्य सुखं शिषेदे वत्सं यथा गौरिवधावसित्वम् येने भजन्तः समवाप्यतापान् संसारचक्रे बहुधा भ्रमन्तः कदापि तेऽनुग्रहमाप्यतेऽपि भजन्ति मानुष्यमवाप्यतेऽपि धरारजः कोऽपि मिमीतनाके तारगणं वारि नालं गुणानां गणानां हि कर्तुं शेषो विधादा तव वर्षपूगैः निराकृतेस्ते यदि न कृति स्यादुपासना कर्म विधिर्वृथा स्याद गुणप्रपञ्चप्रकृतिर्विलास जनस्य भोगश्च तथा कथं स्याद सत्संगेत्सदु सिया निष्ठा सदनुस्मृति चि्त्य शुद्धिमहदीपा ज्ञानम विमुक्ति नुर्लभा सैद क उच य स्त्रोत्र समाकर्ण्य पितुष्टो विनायक उवाच काशीराजं सवरं वृणुहृदि नृप उवाच जादम्बरस्य कृत्यम् मे यत्रा हि समागतः इद पुनर्जन्ममृदी न स्यादाम् तद्विधीयताम् क उवाच स्तोत्रेण प्रीतस्थम् प्राह तथेदि दिव्यदेहिनम् मास निकडे स्थयाम शनिकेकोडियुग मु मै तस्मा तय प्रसाद नारदाय मया प्रोक्त नारदो गौतमाय च प्राहसोऽपि मुनीन् सर्वान् सर्वकामफलप्रदं ज्ञानेन्द्रे मोक्षदं विघ्ननाशनं पावनं परं यः पठेत् स लभेद् भक्तिं नरः विद्याकामो लभेद्विद्यां त्रिसन्ध्यं यः पठेन्नरः पुत्रकामो लभेत् पुत्रान् जयकामो लभेद् जयं एवं सर्वं समाख्यादं यद्यत्पृष्ठं त्वया मुने आख्यानं काशीराजस्य किमन्यच्छ्रोतुमिच्छसि भृगुरुवाच इति श्रुत्वा ब्रह्मवाक्यं व्यासो निःसंशयो गिरः पुनः पप्र सुमतिर्विस्तरेण कथान्तरम् व्यास उवाच शुक्लस्यादिदरिद्रस्य कृतम् दारिद्र्यमादराद भुक्त्वा कदन्नम् तद्गेहे काशिराजम् समेत्य च किं चकारसदेवोऽपि काशिराजश्च तद्वद कथं तौ निहदौ दैत्यौ भूभारश्च कथम् हृदः स्थापितश्च कथं धर्मस्तन्मे शंस यथा विधि क उवाच कथयामि समासेन चरितं बालरूपिणः हृत्वा शुक्लस्य दारिद्र्यं यद्यत्तेन कृतं मुने यदि श्रीगणेशपुराणे क्रीडाखण्डे राज्ञस्य आनन्दप्राप्तिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ओम्